आयाही व्रजयुवती इ कान्नड रागं समर्पिस्ोपीका वस्त्रापर घट माया मुन्दनि परिहासवाक्याल अल इ गोविन्द जनभूषणमय तीर्थं भाविस् अध्वादुकूलं शाखाग्रे कुतूहलतया हरिः वल्लभीवल्लभः कृष्णो असल् निदमुवाच त आयाहि व्रजयुवती वृन्दत्वरया आयाहि सलिले दूरौ आयो समा भवतु अलमधुनाथवायक्रीडया परया आयाहि िणा विरस पलोदय कर्मणि पाठमति बतदौ परिणम विरहित परमपुरुष मे जगे कारु आयाजयु अति ग परिगृहण भुवना बाह्यदृगावरणं परिहरसि बोध कदौ तमबान्धव स्तव प्रकटमेव वदति परिहर केलना बन्दौ अयाहि नयुवति बौ त्वरया अयागी आनन्दमय भवने तव जननी सानन्दमनुसरति अयातीतवपुषौ माधवमेव जनकौ नय मानय गति आया हि व्रज युवती दौ परया गरिविरचित परिहासकधारस गौरवसं हरिविरचित परिहासकथा कसगौरव गुरुभक्तशिवनारायणतीर्थकृतमिदौ गोविन्दजनभूषणौ गोपालौ गोविन्दजनभूषणौ गोपालौ आयाहि व्रजयुवती बृन्द त्वरया आयाहि सलिले पूर